श्रीमद्भागवत् महापुराणं दसंस्कन्ध सप्तपञ्चाशत्तमोऽध्यायः अलब्धमणिरागत्य कृष्ण आहा ग्रजान्तिकं वृथाहत सतधनुर्मणिस्तत्र न विद्यते तत आह बलो नूनं शमणिसतधन्मना कस्मिंश्चित् पुरुषेण सन्तमन्वेष पुरं रज अहं विदेहमिक्षामि द्रष्टुम् प्रियतमं मम इत्युक्त्वा मिथिलाम् राजन्विवेशायजुनन्दनः तम् दृष्ट्वा सहसोत्थाय मैथिलप्रीतमानस अर्ह्यामास विधिवन् अर्हणीयं शमर्हणैर वासु तस्यां कतिचिन्मिथिलायां क्षमा मानित मानितप्रीतियुक्तेन जनकेन महात्मनां ततो शिक्षद्गतां काले धातराष्ट्रसुयोधनः केशवो द्वारिकामेत्य निधनं सतधन्वनः अप्राप्तिं च मले प्राह प्रियाया प्रिया प्रियकृ ततः स कार्यामाशक्रियाबन्धोर्हतस्य वै साकं सुहृद्भिर्भगवान् जायास्यूषम्पनायिकाः अक्रूर कृतवर्मा च श्रुत्वा सदधनोर्वथं द्योशतुर्भयं वित्रस्तौ द्वारिकाया प्रयोजकौ अक्रूरे प्रोषिते दृष्टान्यासन् वै द्वारिकौकशां शारीरामनसास्तापां हृदैविकभौतिकाः नित्यङ्गोपदिशन्त्ये के विस्मृत्यं प्रागुदाहितम् मुनिवासनिवासे किं घटे तारिष्टदर्शनं देवे वर्षते काशीशश्वफल्कायागताय वै स्वसुतां गादिनीं प्रादा ततो वर्षं वर्षतस्मकाशिषु तस्तु तस्तन्त्रभावो यत्र यत्र देवोऽभिवर्षते तत्र नोपतापानमारिकाः इति वृद्धवच श्रुत्वा नैताबधिकारणम् इति मत्वा समानाय प्राहाक्रूरं जनार्दनः पूजयित्वाभिभाष्यैनं कथयित्वा प्रिया कथा विज्ञातम् विज्ञाताखिलजिक्त स्मे मान उवाच ननुदानपतेन स त्वय्यास्ति सन्मनां शमन्तको मणि सत्रादितो नद्यत्वाद्गृहेयो दुर्हितोसुताः दायं निनीयापपिण्डान् विमुद्यां नृणं च शोषितम् तथापि दुर्सरस्त्वन्यै त्वय्यास्तां सुव्रते मणिः किन्तु मामग्रज संयन प्रण्ये प्रध्येते मणिं प्रति दर्शयस्व महाभागबन्धूनां शान्तिमावह अभ्युच्छिन्नामखास्तेद्य वर्तन्ते रुक्मवेदयः एवं सामभिरालब्ध स्वफल्कतनयो मणिम् आदाय वाससाच्छन्नं ददौ सूर्यशमब्रमम् शमन्तकं दर्शयित्वा ज्ञातिभ्यो रज आत्मनः विमृज्य मणिना प्रत्यर्पयत् प्रभुः यस्तेतद्भगवद् ईश्वरस्य विष्णो वीर्याढ्यं वृजिनहरं सुमङ्गलं च आख्यानं पठते शृणोत्यनुस्मरे तवां दुष्कृते दुरितमपुम्पो जाति शान्तिम् इति श्रीमद्भाकुते महापुराणे पारहिंसां शयितायां दशं स्कन्दे उत्तरार्धे